अर्थात् पुरुषो राजन् बृहन्तम् धर्ममिच्छति अर्थमिच्छति कामार्थी न कामादन्यमिच्छति न हि कामेन कामोऽन्यः साध्यते फलमेव तत् उपयोगात् काष्ठाद्भस्मेव पण्डितैः इमाञ्छनकान् राजन् हन्ति वैतम्सि को यथा एतद्रूपमधर्मस्य भूतेषु हि विहिंसता कामाल्लोभाच्च धर्मस्य प्रकृतीयो न पश्यति सवध्यः सर्वभूतानाम् प्रीत्यचेः च दुर्मतिः व्यक्तन्ते विदितो राजन्नर्थो द्रव्यपरिग्रहः प्रकृतिम् चापि वेत्थास्य विकृतिञ्चापि भूयतिम् तस्य नाशे विनाशे वा जरयामरणेन वा अनर्थ इति मन्यन्ते सोऽयमस्मासु वर्तते इन्द्रियाणाम् च पञ्चानाम् मनसो हृदयस्य च विषये वर्तमानानाम् याप्रीतिरुपजायते स काम इति मे बुद्धिः कर्मणाम् फलमुत्तमम् एवमेव पृथग् दृष्ट्वा धर्मार्थौ काममेव च न धर्मपर न चाथ परमो नरः न कामपरमो वा स्यात् सर्वान्सेवेत सर्वदा धर्म पूर्वे धनम मध्ये जधनेम आचरे अहमुच देश शास्त्र विधि